कूष्माण्डहोमन्त्रम् यद्देवाः देवहेलनं देवासह चकृमा वयम् आदित्याः तस्मान्मा मुञ्जद हृदस्य अर्थेन मामिद स्वाहा देवेभ्य आदित्येभ्य इदन्न मम देवाः जीवनकाम्याः यद्वाचा अनृद मुदिम तस्मान्नः इह मुञ्जद विश्वे देवाः सजोष सस्वाः स्वाहा विश्वेभ्यो देवेभ्य इदन्न मम ऋतेन द्यावापृथिवी हृदेन त्वम् सरस्वती कृतान्नः पाहि येन सह यत्किञ्च अनृदमोदिम स्वाहा द्यावापृथिवीभ्यां सरस्वत्या इदन्न मम इन्द्राग्नी मित्रावरुणौ सोमो दादा तेनो मुञ्च येनसः सह यदन्यकृदम् आरिम स्वाहा इन्द्राग्निभ्यां मित्रावरुणाभ्यां सोम धातृबृहस्पतिभ्य इदं न मम सजादशगुं साद उदजामि शगुं साद ज्यायसख उद वा कनीयसः अनाधृष्टं देवकृतं यद नः तस्मात् त्वम् अस्मान् जादवेदः मोग्धि स्वाहा अग्नये जादवेदस इदन्न मम यद्वाचा यन्मनःस ऊरुभ्याम् अष्टिवद्भ्यां शिष्णैहि यतनृतं चक्रमा वयम् अग्निर्मा तस्माद येन सः गारिकपत्यः प्रमुञ्चदो चक्रमह्यानि दुष्कृता स्वाहा अग्नये गारिकपत्या ये दन्न येन त्रिदः अर्णवाद निर्बभूव येन सूर्यं तमसः निर्मुमोच येनेन्द्रः विश्वाः अजहात् अरादिः तेनाहं ज्योतिषा ज्योतिः आनशानः अक्षि स्वाहा अग्नये ज्योतिष इदं न मम मयेहयेन अप्रतीतं मये हयेन यमस्य निधिना चरामि यतद् तदग्ने अनृणः भवामि जीवन्येव प्रदितत्ते ददामि स्वाहा अग्नय इदं न मम यन्मयि माता गर्भे सदि येनश्चकार यत्पिता अग्निर्मा तस्माद येन सः गार्घपत्यः प्रमुञ्चदो दुरितायानि चकृम करोतु माम् अनेन स्वाहा अग्नये गारिहवत्या यदन्न मम मा मातरं पितरं पुत्रप्रमुदिदः धयन्न अहिगुंसितौ पितरौ मया तद तदग्रे अनृणः भवामि स्वाहा अग्नय इदं न मम यदन्तरिक्षं पृथिवीम् उदद्यां यन्मादरं पिदरं वा जिहिगिंसिमा अग्निर्मा तस्माद् येन सः गारिहपत्यः प्रमुञ्जदो दुरिदायानि च कृमा करोतु माम् अनेन सं स्वाहा अग्नये गारिहपत्यायेदन्न मम यदाशसा निशसा यत् पराशसा यदेनः चकृ नूतनं यत्पुराणम् अग्निर्मा तस्माद येन सः गार्हपत्यः प्रमुञ्जतो दुरिदायानि चकृ करोतु स्वाहा अग्नये गर्हपत्या मम अधिक्रामामि दुरितं यदेनः जहामिरिप्रं परमे स दस्ते यत्र यन्ति सुकृतः नापि दुष्कृतः तमारोहामि सुकृतानु लोकं स्वाहा अग्नय इदं न मम तृदेवाः अमृजदये तदेनः तृदये दद मनुष्येषु मामृजे तदो मा यदि किञ्च दानशे अग्निर्मा तस्माद येन सः गारिकपत्यः प्रमुञ्जदो दुरितायानि च कृम करोतु माम् स्वाहा अग्नये गारिकपत्यायेदन्न मम दिवि जाताः अप्सुजादाः या जाताः अधोयाः अग्निजा आपः तानथन्दो स्युन्धनीः स्वाहा अभ्यस्युन्धनीभ्य इदन्न मम यदापो नक्तं दुरितं यद्वादिवा नूतनं यत्पुराणं हिरण्यवर्णाः ततः था पुनीतनः स्वाहा अद्भ्यो हिरण्यवर्णाभ्य इदं न मम इमं मे वरुण श्रुधिहवम् अद्या च मृडय त्वां वस्युः आचके स्वाहा वरुणाय इदं न मम तत्त्वायामि ब्रह्मणा वन्दमानः तदाशास्ते यजमानः हविर्भिः अहेडमानः वरुणेः बोधि उरुषगुंस मान आयुः प्रमोषीः स्वाहा वरुणाय इदन्न नो अग्ने देवस्य वुस्द्वान्न देवस आवयासी शेष्टजिष्ठ वह शुचान विश्वाद शी प्रमुमुभस्मस्वाहा अग्निवरुणाभ्याद मम सत्वन्नो अग्ने अव मो भव ओ अस्या उषसः व्युष्टौ अव यक्ष्वणः वरुणं रणः वीहि मृडीकं सुहवो नः येधि स्वाहा अग्निवरुणाभ्यां यदं न मम त्वमग्ने अयासि अयासन मनसाहितः अव्य अव्यमोखिषे अयानो देहि भेषजं स्वाहा अग्नये अयस इदं न मम यदीव्यनऋणमहं बभूव अदिसन्वा सञ्चगर जनेभ्यः अग्निर्मा तस्माद इन्द्रश्च संविधानौ प्रमुञ्चदां स्वाहा अग्नेन्द्राभ्याम् इदं न मम यद्धस्ताभ्यां चकर किल्बिषाणि अक्षाणां वग्नम् उपजिघ्नमानः उग्रं पश्याच च राष्ट्रभृच्च तान्यप्सरसो अनुदत्तां ऋणानि स्वाहा उग्रं पश्या राष्ट्रभृद्भ्याम् अप अप्सरोभ्याम् इदं न मम उग्रं पश्ये राष्ट्रभृद् किल्विषाणि यदक्षवृत्तम् अनुदत्तमेतद नेत्रः ऋणान् ऋणवः यत्समानः यमस्य लोके अधिरज्जुराय स्वाहा उग्रम् पश्य राष्ट्रभृद्भ्याम् अप्सरोभ्याम् इदं न अवते हेलो वरुण नमोभिः अवयज्ञेभिः इमहे अविर्भिः क्षयन् अस्मभ्यं असुरप्रचेतः राजन् यनागुंसि शिश्रथः कृतानि स्वाहा वरुणाय इदं मम उदुत्तमं वरुणपाशम् अस्मद अवाधमं विमध्यमं श्रधाय अधावयम् आदित्यव्रदे तवानागसः आदितये स्याम स्वाहा वरुणाय इदं न मम श्रुतिहवम् अद्या च मृडय त्वामवस्युः आचके स्वाहा वरुणाय इदं न मम तत्त्वयामि ब्रह्मणा वन्दमानः तदाशास्ते यजमानः हविर्भिः अहेडमानः वरुणेह बोधि उरुषगुंस मान आयुः प्रमो श्री स्वाहा वरुणाय इदन्न मम त्वन्नो अग्ने वरुणस्य विद्वान। देवस्य हेळः अवयासि सिष्ठः यजिष्ठः वह्नितमः शोशुचानः विश्वाद्वेषगंसि प्रमोमोऽग् अस्मद स्वाहा अग्निवरुणाभ्याम् इदं न मम अग्ने अवमो भव उती नेधिष्ठः अस्या उषसः व्युष्टौ अवयक्ष्वणः वरुणं रराणः वीहिमृडीकम् सुहपो नः एधि स्वाहा अग्निवरुणाभ्याम् इदं न मम सङ्कुत्सुखः विकुत्सुकः निरुधः यश्च निःस्वनः ते स्मद यक्ष्मम् अनागसः दूराद्दूरम् अचीचतम् स्वाहा देवेभ्य इदं न अचीचदे कृत्या निरृदिं च तेन यः अस्मद समृच्छातै तमस्मै प्रसुवामसि स्वाहा देवेभ्य इदं सानुशगं दुश सूशम साणे अनुणेन चेनाद समृचद तमस्म प्रसुवि स्वाह दम पयसा पयसूभ अगन्महि मनस्सा सगुं शिवेन त्वष्टानो अत्र विदधादो रायो नो मार्ष्ठु तन् स्वाहा त्वष्ट्र इदन्न मम आयुष्ठे विश्वदो दधद अयमग्निः वरेण्यः पुनस्ते प्राणः आयादि परायक्ष्मं सुवामिदे दे स्वाहा आयोर्दे अग्नय इदं न मम आयोर्दा अग्ने हविषो जुषाणः कृदप्रदीकः हृदयोनिः ये थी हृदं पीत्वा मधुचारुगव्यं पिदेवपुत्रं अभिरक्षताद इमं स्वाहा आयोधे अग्नय इदं न मम इममग्ने आयुषे पर्चसे कृधि तिक्ममोजः वरुण सगुंसि शाधी मादेवास्मै अधीते शर्म यच्च विश्वे देवाः जरदष्टिः रथा सद स्वाहा अग्निवरुणादिति विश्वेभ्यो देवेभ्य इदं न मम अग्न आयोगुंषि पवसे आसुवोर्जम् इषञ्जनः आरे बाधस्व स्वाहा अग्नयेदन्न मम अग्ने पवस्व स्वपा अस्मे वर्चस्सुवीर्यं ददद्रह्यं मयि स्वाहा अग्नयेदन्न मम अग्निर् ऋषिः पवमानः पाञ्चजन्यः पुरोहितः तमीमहे महागैयम् स्वाहा अग्नये ऋषये पवमानाय पाञ्चजन्याय पुरोहिताय इदं न मम अग्ने जादान प्रणुदानः सपत्नान प्रत्यजादान जादवेदः नुदस्व दस्व अस्मे दीधिः सुमना अहेळन शर्मन्देश्याम त्रिवरुधः उद्भौ स्वाहा अग्नये जादवेद सेदन्न सखसा जादान प्रणुदानः सपत्नान् प्रत्यजादान जादवेदः नुदस्व अधिनो ब्रुहि सुमनस्यमानः वयगृश्याम प्रणुदानः सपत्नान् स्वाहा अग्नये जादवेदसे सुमनस्यमानाय इदं न अग्ने यो नः अभितो जनः वृको वारः जिखागुंसदि ता गृस्त्वं वृत्रह न जहि वस्वस्मभ्यम् आभर स्वाहा अग्नये वृकघ्न इदं न अग्ने यो नः अभिधासदि समानः यश्च निष्ठ्यः तं वयं समेधं कृत्वा तुभ्यमग्ने अपि दध्मसि स्वाहा अग्नय इदं न मम यो न अशपतः यश्च नः चपाद उषाश्च तस्मै निमृक् सर्वं पापं समोहतां स्वाहा उशो निमृग्भ्याम् इदन्न मम यो नः सपत्नः यो रणः मर्तः अभिधासदि देवाः यद्मस्येव प्रक्षायद मातस्य उच्चेषि किञ्चन स्वाहा देवेभ्य इदं न मम यो मान्द्वेष्ठी जाधवेदः यञ्चाहन्द्वेष्मि यश्च मां सर्वान् तानाग्ने सन्तः याग्हन्द्वेष्मि ये च मां स्वाहा अग्नये जादवेदश इदं न मम यो अस्मभ्यम् अरादीयाद यश्च नः द्वेषदे जनः अस्मान् दिप्सा च सर्वागुंस्तान स्वाहा अग्नय इदं सगुंसितं मे ब्रह्म सगुंसितं वीर्यं बलं सगुंसितं क्षत्रं जिष्णो जिष्णु यस्याहमस्मि पुरोहितः स्वाहा अग्नय इदं न मम उदेषां बाहु अधिरम् अधो बलं क्षिणोमि ब्रह्मणा अमित्रान् उन्नयामि स्वाम् अहं स्वाहा अज्ञय इदं न मम पुनर्मनः पुनरायुर्मे आगाद पुनश्चक्षुः पुनः श्रोत्र मे आगाद पुनः प्राणः पुनः आपूतं मे आगाद पुनश्चित्तं पुनः आधीतं आगाद वैश्वानरः मे दब्धः तनुपाः अवबाधदां दुरितानि विश्वा स्वाहा अग्नये वैश्वानराय दन्न शिघ्रं हेव्याघ्रे उदया पृदाकौ द्विषिरग्नौ ब्राह्मणे सूर्येया इन्द्रय्या देवी सुभगा जजान सा आगन वर्चसा संविदाना स्वाहा द्विष्यै देव्या इदं या राजन्ये द्वन्द्वो भव आयतायाम् अश्वस्य क्रन्थे पुरुषस्य मायौ इन्द्रय्या देवी सुभगा जना सा न आगन वरुचस स्वाहा द्विष्यै देव्या इदं या हस्तिनी द्वीपिनी या हिरण्ये त्विशिरश्वेषु पुरुषेषु गोषु इन्द्रय्या देवी सुभगाजान स आगन्न वर्चसा संविदाना स्वाहा ेष्ययि देव्या इदं न वृषभस्य वाजे वादे पर्जन्ये वरुणास्य चुष्मे इन्द्रय्या देवी सुभगा जजाना सा न आगन्न वर्चसा संविदाना स्वाहा तुष्यैदेव्या इदं न मम अग्नेभ्यः वरुदिन अभिनः आवर्दस्व आयुषा वर्चसा संन्यामेधया प्रजया धनेन स्वाहा अग्नये अभ्या इदं न ममः अग्ने अङ्गिरः शदन्ते सन्तु आवृतः सहस्रन्ते उपावृतः तासाम् पोषस्य पोषेण पुनर्नो नष्टम् आकृधि पुनर्नो रयम् आकृधि स्वाहा अग्नये अध्यावर्धिन इदं पुनरुर्जा निवर्तस्व पुनरग्ने युषायुषा पुनर्नः पुनर पाहि विश्वतः स्वाहा अग्नये अध्यावर्धिन इदं न मम सह रय्या निवर्तस्व अग्ने, अग्ने पिन्वस्व धारय विश्वाक्स्नीया विश्वतः परी स्वाहा अग्नये अभ्यावर्दिन इदन्न मम उपस्थानमन्त्रा वैश्वानराय प्रतिवेदयामः यदी नृणं सङ्करः देवतासु स एतान् प्रमोचन प्रवेद सनो नो दुरिदाद अवद्याद वैश्वानरः पवयान्नः पवित्रैः यत्सङ्करम् अभिधावाम्या शाम् अनाजानन् मनसा याचमानः यदत्रै नः अवतत्सु वामी अमी येषु भगे दिवि विच्छ्रुतौ नाम तारके प्रेहामृतस्य यच्छतां यद बद्धकमोचनं विजिहीष्व लोकान् कृधि बन्धान्मुञ्चासि बद्धकं योनेरिव प्रच्युते गर्भः सर्वान् पधो अनुष्व सप्रजानन् प्रजानन् विद्वान विद्वान् प्रजापतिः प्रथमजाः हृदस्य अस्माभिर्धत्तं जरसः परस्ताद अच्छिन्नं तन्तुम् अनुसञ्चरेम तदन्तन्तुम् अन्वेके ए अनुसञ्चरन्ति येषां दत्तं आयनवद अबन्द्वेके ए प्रयच्छाद दादुञ्चेद दा शक्नुवागुं स स्वर्ग येषाम् आरभेधाम् अनु सगं रभेधां समानं पन्थाम् अवधो हृदेन यद्वां पूर्तं परिविष्टं यदग्नौ तस्मै गोत्रा येह जायापदी स गुं रभेधां यदन्तरिक्षं पृथिवीमुदध्यां यन्मातरं पितरम् वाजिहि गुंसिम अग्निर्मा तस्मादेन सह गारिः पत्यः उन्नोनेषद दुरितायानि चक्रमा क्रम भो निर्मादा अदितीर्णः जनित्रम् भ्रातान्तरिक्षम् अभिषस्त येनः द्यौर्नः पिता पितृयाद शम्भवासि जामिमित्वा मा विवित्सि लोकात् यत्र सुहार्दः सुकृतो मदन्ते विहायरोगं तनुहा अगुं स्वाया अश्रोणाङ्गैः अहृदाः स्वर्गो तत्र पश्येम पितरञ्च पुत्रं यदन्नमद्मि अमृतेन देवाः दास्यन अदास्यन उदवाः परिष्यन्न यद्देवाना चक्षुषी आगो अस्ति यदेव किञ्च प्रदिजग्राहम् अग्निर्मातस्माद नृणम् कृणोदो यदन्नमत्मि बहुधा विरूपं वासो हिरण्यम् उदगा अजामविम् यद्देवाना चक्षुषी आगो अस्ति यदेव किं अग्नेर्मा तस्मात् अनृणम् कृणोदो यन्मया मनसा वाचा कृतमेनः कदाचन सर्वस्माद तस्माद मेलितः मोग्धि त्वगुंहि वेद्ध यद्धा तद्धम् ओ